पञ्चदशि चाप्टर् फिफ्टीन् ब्रह्मानन्दे विषयानन्दप्रकरणम् अधात्रविषयानन्दो ब्रह्मानन्दांशरूपभाक् निरूप्यते द्वारभूतस्तदं षत्वं श्रुतिर्जगौ येषोऽस्य परमानन्दो यो खण्डैकरसात्मकः अन भूद्येत मात्र मेवुजते शांता खोरा स्त मूढ़ मनसो वृत्तयस्तृधा वैराग्यं क्षातिरौदार्य शांदवृत कृष्णास्नेहो रागलोभावित्याद्या घोरवृत्तयः रा सम्मोहो भयमित्याद्या कथिता मूढवृत्तयः वृत्तिश्वेतासु सर्वासु ब्रह्मणश्चित्स्वभावता प्रतिबिम्बदि शान्तासु सुखं च प्रतिबिम्बति रूपं रूपं बभूवासौ प्रतिरूप इति श्रुतिः उपमा सूर्यकेत्वादिसूत्रयामासूत्रकृत एक एव ये हि भूतात्मा भूदे भूदे व्यवस्थितः एकधा बहुधा चैव दृश्यते जलचन्द्रवद जले प्रविष्ट तश्चन्द्रोऽयमस्पष्टः कलुषे जले विस्पष्टो निर्मले तद्वद्वेधा ब्रह्मापि वृत्तिषु घोरमूढासु <गोरा> मालिन्यात्सुखांशस्य तिरस्कृतिः ईषन् नैर्मल्यतस्तत्र चिदंशप्रतिबिम्बनम् यद्वापि निर्मले नीरे वह्नेरौष्ण्यस्य सङ्क्रमः न प्रकाश्यस्य तद्वस्य चिन्मात्रोद्भूतिरत्र च काष्ठे तौष्ण्यप्रकाश्य उद्भवम् गच्छदो यथा शान्तासु सुखचैतन्ये तथैवोद्भूतिमाप्नुदः वस्तुस्वरूपमाश्रित्य व्यवस्था तूभयो समा अनुभूत्यनुसारेण कल्प्यते नियामकम् नकोरासु कोरासु न शान्तास्वपि क्वचित् कश्चित् सुखादिशय ईष्यताम् गृहक्षेत्रादिविषये यदा कामो भवेत्तदा राजसस्यास्य कामस्य कोरत्वात् तत्र नो सिद्धेन्न वेत्यस्ति दुःखमसिद्धौ तद्विवर्धते भवेत क्रोधो भवक्रोधो दबंधक अशक्येत प्रतीकार विशद सै सानस क्रोधादिषु महादुख सुखशंका दूरदह। काम्यलाभे हर्षवृत्तिः तत्र महत्सुखं भोगे महत्तरं लाभप्रसक्ता वीषदेव हि महत्तमं विरक्तौ तु विद्यानन्दे तदीरिदं ये वङ्क्षान्तौ तदौ दार्ये यद्यत् सुखं भवेत्तद् ब्रह्मैव प्रतिबिम्बनाद वृत्तिष्वन्दर्मुखा स्वस्य निर्विघ्नं प्रतिबिम्बनम् सत्ता चितिसुखं चेदि स्वभावा ब्रह्मणस्त्रयः मृच्छिलादिषु सत्तैव व्यज्यते नेदरद्वयं सत्ता चितिर्द्वयं धीवृत्योर्घोरमूढयोः शान्तवृत्तौ त्रयं व्यक्रम् मिश्रम् ब्रह्मेढमीरिदम् अमिश्रं ज्ञानयोगाभ्याम् तौ च पूर्वमुदीरितौ आद्ये ध्याये योगचिन्ताज्ञानमध्यायोर्द्वयोः असत्ता जाढ्यदुःखे द्वे मायारूपं त्रयं त्विदम् असत्ता नरशृङ्गादौ जाढ्यं काष्ठशिलादिषु खोरमूढधियोर्दुःखमेव माया विजृम्भिता शान्तादिबुद्धिवृत्त्यैक्यान्मिश्रं ब्रह्मेधिकीर्तिदम् एवं स्थितेऽत्र यो ब्रह्म ध्यातुमिच्छेत् पुमानसौ नृशृङ्गादिमुपेक्षेत शिष्टं ध्यायेद्यथायथम् शिलादौ नामरूपे द्वे त्यक्त्वा सन्मात्रचिन्तनं त्यक्त्वा दुःखं खोरमूढ धियोः सच्चिद्विचिन्तनं शान्दासु सच्चिदानन्दां स्त्रीनप्येवं विचिन्तयेद् कनिष्ठमध्यमोत्कृष्टास्तिस्रश्चिन्ताक्रमादिमाः मन्दस्य व्यवहारेऽपि मिश्रब्रह्मणि चिन्तनम् व्यक्तुमेवात्र विषयानन्द ईरिदः औदासीन्येदु धीवृत्ते शैथिल्यादुत्तमोत्तमम् चिन्तनं वासनानन्दे ध्यानमुक्तम् चतुर्विधम् न ध्यानम ज्ञानाभ्या ब्रह्म विद्य साने नैकाग्र्यपन्नेद्या स्थि विद्यां सच्चिदाननता अखंडकसात्मता भांगन भेदेन वर्जनाद। चान्दकोराशिलाद्याश्च भेदकोपाधयो योगाद्विवेकदो योगाद्विवेकतो वैषमुपाधीनामपाकृतिः निरुपाधिब्रह्मतत्त्वे भासमाने स्वयं प्रभे अद्वैदे त्रिपुडीनास्ति भूमानन्दोद उच्यते ब्रह्मानन्द अभिधे अभी्रंथे पंचमोध्यानंदन द्वार्यता प्रीया हरिहन ब्रह्मानंदन सर्वदि सर्वान्श्रिता शुद्धमान सान् इति ब्रह्मानन्दे विषयानन्दप्रकरणम् समाप्तम् इति श्रीमत्परमहंसपरिव्राचकाचार्यश्रीविद्यारण्यमुनिविरचितः पञ्चदशी ग्रन्थः समाप्तः ओ